त्वयिष्टवति पुत्रेऽहं हरिश्चन्द्रवदाशु वै मोदिष्ये बहुला शश्वत्समाशक्रस्य संसदि एवं भवतु वक्ष्येऽहं तव भूलोकं यदि गच्छेयम् इति पाण्डुमथाभ्रुवं तस्य त्वं पुरुषव्याघ्रासङ्कल्पं कुरु पाण्डव बहुविघ्नश्च नृपते क्रतुरेश स्मृतो महान् छिद्राण्यस्य तु वाञ्छन्ति यज्ञघ्ना ब्रह्म युद्धं च क्षत्रशमनं पृथिवीक्षयकारणं किञ्चिदेव निमित्तं च एतत् सञ्चिन्त्य राजेन्द्र यत्क्षेमं तत्समाचर अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे भवयेधस्वमोदस्वधनस्तर्पय च एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि आपृच्छे त्वां प्रति वैशम्पायनुवाच एवमाख्याय पार्थेभ्यो नारदो जनमे जय जगामतैर्वृतो राजेन्द्रशिभिर्यैः समागतः गतेतु नारदे पार्थो भ्रातृभिः सह कौरवः राजसूयं क्रतुश्रेष्ठं चिन्तयामास पार्थिवः इति श्रीमहाभारते सभापर्वणि लोकपालसभाख्यानपर्वणि पाण्डुसन्देशकथने द्वादशोऽध्यायः